ततो दृष्ट्वा धना राजन्नायान्तम् पर्वतोपमम् भयाधिदुद्रुगुः सर्वे सिंहात् क्षुद्रमृगा यथा आससादचमाद्रेयम् पुलस्तिम् रावणो यथा अभिवाद्य ततो राजन् सह देवम् भटोत्कचः किं कार्यमिति चब्रवीत् तं मे रुशिखराकारमागतं पाण्डुनन्दनः सम्परिष्वज्य बाहुभ्याम् मूर्ध्युपाघ्राय चासकृत् पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाचः सह उवाच गच्छ लङ्काम् पुरीम् वत्सा करार्थम् मम शासनात् तत्र दृष्ट्वा महात्मानम् राक्षसेन्द्रम् विभीषणम् रत्नानि राजसूयार्थम् विविधानि बहूनि च उपादाय च सर्वाणि प्रत्यागच्छ महाबला नोचे देवं वदेः पुत्रा समर्थमिदमुत्तरम् विष्णोर्भुजबलम् वीक्ष्य राजसूयमथारभत् कौन्तेयोः भ्रातृभिः सार्धं सर्वं जानीहि साम्प्रतं स्वस्ति तेऽस्तु सर्वं वैश्रवणानुजा इत्युक्त्वा शीघ्रमागच्छा मा भूत्कालस्य पर्ययः वैशम्पायनुवाच पाण्डवेनैव मुक्तस्तो मुदा युक्तो घटोत्कचः तथेत्युक्त्वा महाराजा प्रतस्थे दक्षिणाम् दिशम् ययौ प्रदक्षिणम् कृत्वा सहदेवं देवम् घटोत्कचः ततः कच्छगतो धीमान् दूतम् माद्रवती सुतः प्रेषयामास महात्मने विभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः